अथ मूर्तिरहस्यम् ऋषिरुवाच ओम् नन्दा भगवती नाम या भविष्यति नंदजा स्तुता सा पूजिता भक्त्या वशीकुर्या जगद्वयम् कनकोत्तमकान्तिः सुकांति सुकान्तिकनकाम्बरा देवी कनकवर्णाभा कनकोत्तमभूषणा कमलाङ्कुशभागाब्च्चैरलङ्कृतचतुर्भुजा इन्दिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना या रक्तदन्तिका नाम देवी प्रोक्तामया मया नघ तस्याः स्वरूपम् वक्ष्यामि शृणु सर्वभयापहम् रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा रक्ताजुधा रक्तनेत्रा रक्तकेशातिभीषणा नरकदीक्ष्णनखारक्तदशनारक्तदन्तिका पतिम् नारी वाणुरक्ता देवी भक्तम् भजेर्जनम् वसुधेव विशालासा सुमेरुयुगलस्तनी दीर्घो लम्बावति स्थूलौ तावतीव मनोहरौ करकशावतिकान्तोतौ सर्वानन्दपयोनिधि भक्तान् समम्पायये यद्देवी सर्वकामदुभौ स्तनौ खड्गम् पात्रम् च मुसलम् लाङ्गलम् च बिभर्ति आख्याता आख्यातारक्त चामुण्डा देवी योगेश्वरीति च अनया व्याप्तमखिलम् जगत्स्थावरजङ्गमम् इमाम् यः पूजयेद्भक्त्या सव्याप्नोति चराचरम् भुक्त्वा भोगान् यथा देवी सायुज्यमाप्नुयात् अधीतेय इमम् नित्यम् तंसा परिचरे देवी पतिम् प्रियमिवाङ्गना शाकम्भरी नीलवर्णा नीलोत्पलविलोचना गम्भीरनाभिस्त्रिवली विभूषिततनूदरी सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी मुष्टिम् शिलीमुखापूर्णम् कमलम् कमलालया पुष्पपल्लवमूलादिफलाढ्यम् शाकसञ्चयम् काम्यानन्तरसैर्युक्तम् क्षुत्रिन्मृत्युभयावहम् कार्मुकम् च स्फुरत् कान्ति बिभ्रती परमेश्वरी शाकम्भरीशताक्षी सा सैव दुर्गा प्रकीर्तिता विशोकादुष्टदमनी शमनी दुरिता पदाम् उमा गौरी सती चण्डी कालिका सा च पार्वती शाकम्भरीम् स्तुवन् ध्यायन् अकथयमश्नुते शीघ्रमन्नपानामृतम् फलम् भीमापि भी नीलवर्णासा दंष्टादशनभासुरा विशालोचनारीवृत्तपीनपयोधरा चन्द्रहासम् च डमरुम् शिरःपात्रम् च बिभ्रती एकवीराकालरात्रिः सैवोक्ता कामदास्तुता तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृते चिरित्रानुलेपना देवी चित्राभरणभूषिता चिरित्रभ्रमरपाणिस्ता महामारीति गीयते इत्येता मूर्तयो देव्याया ख्याता वसुधाधिप जगन्मातुश्चण्डिकायाः कीर्तिताः कामधे नवः इरम् रहस्यम् परमम् न कस्यचित्वया तस्मात् सर्वप्रयत्नेन देवीम् जपनिरन्तरम् स सप्तजन्मार्चितैर्घोरैर्ब्रह्महत्या समैरपि पाठमात्रेण मन्त्राणाम् उच्यते सर्वकिल्भिषैः देव्या ध्यानम् मयाख्यातम् दुःख्यात् तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् एतस्यास्त्वम् प्रसादेन सर्वमान्यो भविष्यसि सर्वरूपमयी देवी सर्वम् जगते जगत् अतोऽहम् विश्वरूपान् ताम् नमामि परमेश्वरी इति मूर्तिरहस्यम् सम्पूर्णम्